मुद्गलपुराणं खण्डं सवन् विघ्नराजचरितम् अध्यायं शवन् ममासुरगर्वहरणम् श्रीगणेशाय नमः कश्यप उवाच समागतं ममो दैत्यो नारदं पूज्य प्रष्टुं समुद्यदो यावत् नारदो तं नारदोऽ ब्रवीद नारद उवाच आपद्धर्मविवेकेन देवै धुना गणेशो वरदो भादि देवेभ्य सिद्धिदायकः त्वद्वद्धार्थमहाराजप्रार्थितो देवनायकैः तथेति प्रतिपाद्यैव तत्र संस्थोऽधुना प्रभुः सामार्थं प्रेषयामास माम, मां मम तेऽत्रसन्निधौ शृणुवाक्यमदीयं त्वं हिदं तेन भविष्यति विघ्ना सत्तात्मका प्रोक्ता सत्तात्रिविधा मदा सत्यसङ्कल्परूपा च पराधीनात्मिका प्रभो सत्यसङ्कल्पसत्ताया धारका ब्रह्मवाचकाः hmm. परमेश्वर सञ्ज्ञास्ते स्वाधीनाः प्रभवन्ति ये अन्ये नरा दयप्रोक्ताः सत्तावन्तो न संशयः तेषु दैवम् समाख्यातम् दैवाधीनास्तदस्मृताः त्वम् वरेण समर्थोऽसि स्वसत्ता संयुतो परसत्तात्मको दैत्यपराधीनो न संशयः पराधीना नरा विघ्नायः पीडिता सर्वदा मदाः वृद्धा गर्वयुता अंदे सप्ताहीना भवन्त्युद अहम् ब्रह्मे वि मोहेन जगदीश्वराः मदाधारमिदं सर्वं विश्वं चलदि ते ब्रुवन् अस्मभ्यो न परं किञ्चित् सप्ताहीनास्तदा भवन् सत्यसङ्कल्पजां तेषां सिद्धिं अदो अधो विघ्नयुधं सर्वं जानीहि द्विविधं मदम् सत्यासत्यमयं दैत्यद्वन्द्वमाया विमोहितम् आनन्दं परमं ब्रह्मद्वन्द्वहीनं समात्मकं द्वन्द्वेषु द्वन्द्वभावाख्यं परं तन्मोहवर्जितं तदेव विघ्नराजाख्यं ब्रह्मवेधायि प्रकाशितम् देवैराराधितं पूर्णं देहधारि बभूवः अधुना तत्समायातं देवागारेषु दैत्यप तद्गच्छरणं नो चेन्मरिष्यसि नः स्वस्वधर्मयुतं सर्वं विश्वं भवदु दैत्यप स्वधर्मनिरदो भूत्वा तिष्ठस्थाने स्वके सदा स्वर्गभोगकरदेवनरभूमिसमाश्रिताः दैत्याः पाता लगा भूत्वा तिष्ठन्तु सुखसंयुताः वर्णाश्रमयुता लोकास्तिष्ठन्तु नित्यमादराद एवं कृत्वा मम त्वं तु तिष्ठवैभोगसंयुधः एतस्मिन्नन्तरे तत्र वाक्बभूवा शरीरिणी मा गर्वं कुरु दैत्येन्द्र नारदाज्ञावशो भव नो चेद्विघ्नपधिक्रुद्धस्त्वां हनिष्यति निश्चितम् अधस्तं शरणं गच्छ सर्वसिद्धि प्रदायकं मम सुरश्चतां श्रुत्वा खेदयुक्तो बभूवः शुक्रं तत्र समान्नाय्य विचारमकरोत्परं शुक्रेणापि तथा प्रोक्तं तदस्स भयसंयुगः प्रणम्य नारदं वाक्यं जगाद हितमात्मनः मम सुर उवाच त्वया नारद यत्प्रोक्तं तथा शुक्रेण निश्चितं देवानां हिदमत्यन्तं नाहं यामि गजाननम् आदौ मया विशेषेण सेवितोऽयं महामुने मां त्यक्त्वा देवनाधत्सो भवत्तेन न यामितम् मरणं मे यदा प्राप्तं भविष्यदि यशस्करं शरणं विप्र न योग्यं मानिनां कदा तस्य तद्वचनं श्रुत्वा नारदः पुनरब्रवीद मा चिन्तां कुरु दैत्येन्द्र नायं देवसहायवान् देवामदयुता जादा दैत्याञ्जघ्नुः प्रमोहिताः दैत्यानां मूलनाशार्थं पादालं विविशुः पुरा तदायं वरदो भूत्वा तव सामर्थ्यतस्वयं देवान् मदविहीनांश्च चकार विघ्ननायकः अपि त्वं मोहसंयुक्तस्त्यक्त्वा गणपतिं परं कर्म नाशनतः सर्वान् देवान् हन्तुं समुद्यतः कर्मनाशप्रभावेण देवा नष्टा भवन्ति निर्देवं विश्वमत्यन्तं तदा भवति सर्वदा अतस्त्वां हन्तुमुद्युक्तो विघ्नराजो महासुरस्वस्वधर्मयुतांश्चेत्तान्नकन्दिब्रह्म नायकः सुरासुरमयश्चायं सिद्धिबुद्धिविहारकृद सिद्धिबुद्धिविहीनस्त्वं किं करिष्यसि तद्वद विघ्नराजस्य विघ्नम् तु कः क्षमो जायदेवद कर्तुं विघ्नयुधो नित्यं मूर्खभावान्मरिष्यसि आनन्दं ब्रह्मदेवेषु कथितं सदसन्मयं न तत्त्वसंयुधं दैत्य तत्वहीनं न विद्यते सर्वत्र योगभावेन संस्थितं द्वन्द्वधारकम् स एव विघ्न राजस्त्वां हनिष्यदिन संशयः तेनैव त्रिविधं सर्वं रजिदं योगमायया स्वस्वधर्मयुधम् विश्वं कृतं क्रीडार्थमञ्जसा यदा गर्वयुधा दैत्यजन्तवश्चेश्वरादयः त्यक्त्वा स्वधर्मं मोहेन संशक्ता विषये भवन् सर्वैरवध्यतां प्राप्य कुर्वन्ति मनसीप्सितं तदायं देहधारी संभवदे मदनाशकः असन्मयो गणेशस्य देहसन्मयमस्तकम् तेनायं गजवत्रोऽभूतं गच्छ शरणं परं नारदस्य वच श्रुत्वा काव्यस्य दैत्यपह ममा सुजखवाणीं तां विचारमकरोत् हृदि गणेशो ब्रह्मरूपोऽयं स्वानन्दे वासकारकः कच्छामि शरणं तं स्वहितं तेन भविष्यदि विघ्नराजमनादृत्य सिद्धिबुद्धिपदिं प्रभुं को विघ्नहीनतां प्राप्य तिष्ठे द्वै सर्वमण्डले स्वयं वचनं हितकारकम् ममासुरप्रसन्नात्मा गणेशो ममतां दधौ ममासुर उवाच दैत्येन्द्रा कालमुख्या वचनं शृणुदप्रियाः काव्येन नारदेनोक्दं कवाण्या तत्करोम्यहम् तस्य तद्वचनं श्रुत्वा धर्मधर्मौ समुचतुः न देवपक्षिणं योग्यं शरणं जगदीश्वरं मरणं रणमध्ये तु स्वर्गधं कीर्तिदं भवेद तस्माद्युध्यामहेताद विघ्नेशेन विशेषदः देहधारी गणेशा न वद तादते मायया देवा दर्शयन्ति प्रमोहकं नारदो गणराजस्य भक्तस्तस्य वचः कथं दैत्येन्द्रैः सह त्वं करिष्यसि महामदे नारदभावरक्षार्थम् आव्यो वददिवै वै तथा देवैः खस्ता वाणी तस्या वचो वृथा मा कुरुष्वभयं ताद तत्त्वयुक्तं गजाननम् अनिश्यामः प्रतापेन तव दैत्यप्रपालक यवमुक्त्वा महावीरौ रथारूढौ बभूवधुः देवान् हन्तुं प्रगर्वेण जग्मधु क्रोधसंयुतौ मा मेदिवचनं दैत्यनाथस्य त्यज दुर्मदौ धर्मधर्मौ गणेशानं जग्मदुर्हननाय च तदोगणेश्वरं विप्रो नारदः प्रजगामः कथयामास वृत्तान्तम् सोऽपि क्रोध युधो भवद देवान् भययुधान् वीक्ष्य जगादगणनायकः मा भयं कुरुद प्राज्ञा अनिष्यामि ममासुरान् अमोकास्त्रबलायुर्युक्तो ममासुरः प्रतापवान् समागतः सोऽपि हनिष्यामि न संशयः यवमुक्त्वा गणाधीशः कमलं निजहस्तगं मुमोच क्रोधसंयुग्धो महास्त्रं ब्रह्मरूपकं क्षणेन कमलं तत्र दैत्यसैन्ये पपातः तस्माज्जातसुवासश्च प्रससारमहीतले गणेशानां द्विषन्धस्तान् जखान वास आगदः द्वेषहीनान् समुत्सृज्य तदद्भुतमिवा भवत् वासं गृह्यमहा दैत्यौ धर्माधर्मौ मृतौ मृधे प्रधानाः पञ्चतत्वते मृतास्तत्र बभूविरे तदोहाहारवं कृत्वा दैत्याः पादालमाविशन् कमलं क्रोधसं युक्तं जगामः ममासुरं सुवासकं तस्य गृह्य मूर्च्छितो भून् ममासुरः प्रखरार्धेन दैत्ये सावधानो बभूवः ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते ममासुरगर्वहरणं नाम सप्तमोऽध्यायः ॐ